हरि श्री श्रीसीतारामचन्द्राभ्यां नमः अथ अध्यात्मनामायणे बालकाण्डे प्रथमसर्गः श्रीरामहृदयः यः पृथिवी बरवारणाय दिविजयी सम्प्रार्थित चिन्मय सञ्जातय पृथ्वी तले रविकुले मायामनुशोव्यय निश्चक्रं हत ब्रह्मत्वमाद्यं स्थिरम् कीर्तिं पापहरां विधाय जगताम् तं जानकीशम् भजे विश्वोद्भवस्थितिलयादिषु हेतुमेकम् मायाश्रियं विगतमायमचिन्त्यरूपम् आनन्दसान्द्रममलम् नियबोधरूपम् सीतापतिं विदितदत्त्वमहं नमामि पठन्ति ये नित्यमनन्यचेतस शृण्वन्ति चाध्यात्मिकसन्नितम् शुभम् निर्धुत सर्वपुराणसम्मतम् निर्धृतपाहरिमेव यन्ति ते अध्यात्मरामायणमेव नित्यम् पठद्यदीच्छेद् भवबन्धमुक्तिम् गवां सहस्रायुतकोटिदानात् फलं लभेद्य शुण्यात् नित्यम् पुरारी गिरिसम्भूता श्रीरामार्णव सङ्गता अध्यात्मराम गङ्गेयम् पुरातिभुवनत्रयम् कैलासागरे कदाचित् द्रविशत विमले मन्दिरे रत्नपीठे संविष्टम् ध्याननिष्ठम् त्रिनयनमभयं सेवितं सिद्धसङ्घै देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्राहेदं देवमीशम् सकलमलहरं वाक्यमानन्दकन्दम् पार्वती नमस्तु ते देव जगन्निवास सर्वात्मदृक्तम् परमेश्वरोऽसि पृच्छामि तत् तम् पुरुषोत्तमस्य सनातनम् तं च सनातनोऽसि गोप्यम् यदत्यन्तमनन्यवाच्यम् वदन्ति भक्तेषु महानुभावा तदप्यहोऽहम् तव देव भक्ता प्रियोसीमेतं वदयतु पृष्ठम् ज्ञानम् स विज्ञानमथानुभक्ति वैराग्ययुक्तम् च मितं विभास्वत् जानाम्यहम् योषिदपि त्वदयुक्तम् यथा तथा ब्रूहितरन्ति तेन येन पृच्छामि चान्यच्च परम् रहस्यम् तदेव चाग्रे वद्वारिजाक्षे श्रीरामचन्द्रेखिलोकसारे भक्तिदृढा नौर्भवति प्रसिद्धा भक्तिप्रसिद्धा भवमोक्षणाय नान्य तथैव साधनमस्ति किञ्चित् तथापि रुत्संशयबन्धनं मे विभेतुमर्हस्य मलो तद्भिष्टम् वदन्ति रामम् परमेकमाद्यम् निरत्तमाय गुणसम्प्रवाहम् भयन्ति चाह निजमप्रमत्ता परं पदं यान्ति तथैव सिद्धा वदन्ति केचित् परमापि राम स्वाविद्यया संवृतमात्मसन्न्यम् जानाति नात्मानमतः परेण सम्बोधितो वेद यदि स्म जानाति कुतो विलाप सीताकृतेनेन कृतः परेण जानातिनैवं यदि केन सेव्य स मो हि सर्वैपि जीवजाते अत्रोत्तरम् किं विदितं भवद्भिः तद्भ्रूतमे संशयभीरिवाक्यम् श्रीमादेव उवाच धन्यासि भक्तासि परात्मनष्टम् यज्ञातुमिच्छा तव राम तत्त्वम् पुरा न केनाप्यभितोचोदितोऽहम् वक्तुम् रहस्यम् परमम् भक्त्या परिनोदितोऽहम् वक्षे नमस्कृत्य रघुत्तमं ते राम परात्मा प्रकृते नदी आनन्दैकपुरुषोत्तमो हि स्वमायया कृत्नमिदं विसृष्ट्वा नभोवदन्तर्बहिरास्थितो यः सर्वान्तरर्थोऽपि निगूढात्मा स्वमायया श्रुष्टमिदं विचष्टे जगन्ति नित्यं परितो भ्रमन्ति यत्तौ चुम्बकलो हवधि एतन्न जानन्ति विमूढचित्ताय स्वाविद्यया संवृतमानसाये स्वज्ञानम् अपि आत्मनि विशुद्धबुद्धि स्वारोपयन्ती निरस्तमाये संसारमेवानुसरन्ति ते वै पुत्रादिसक्ता पुरीकर्मयुक्ता जानन्ति नैवम् हृदयेति तम् वै च मेकरम् कण्ठगतम् यथाज्ञा यथा प्रकाशो न तु विद्यते रवो ज्योतिस्वभावे परमेश्वरे तथा विशुद्धविज्ञानघने रघोत्तमे अविद्यया कथञ्च्यात्परते परात्मनि यथा हि चाक्ष्णा भ्रमतागृहादिकम् विनट दृष्टेर्भ्रमतीव दृश्यते तथैव देहेन्द्रिय कर्तृरात्मर कृतं परेध्यस्य जनो विमोहति राहो न रात्रिः सवितुरी यथा भवेत् प्रकाशरूपा व्यभिचार चक्वचित् ज्ञानं तथा ज्ञानमिदं त्रयं हरो रामे कथं स्थास्यति शुद्धचिद्धने तस्मात् फलानन्दमये रघुत्तमे विज्ञानरूपे हि विद्यते तमः अज्ञानसाक्षिण्यरविन्दलोचने माया श्रयत्वान्न हि मोहकरणम् अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् सीतारामम् मृत्सूनो संवादम् मोक्षसाधनम् पुरा रामायणे रामो रावणम् देवकण्डकम् अत्वाे रणश्लाघी स पुत्र बलवाहनम् सीतया सह सुग्रीव लक्ष्मणाभ्यां समन्वितः अयोध्यां मगमद रामो हनुमयप्रमुखतः अभिषिक्ते परिवृतो वसिष्ठाद्यै महात्मभिः सिंहासने समसेन कोटि कोटिसूर्यसमप्रभे श्रुत्वा तदा हनुमन्तम् प्राञ्जलिम् पुरतस्थितम् कृतकार्यम् निराकाङ्क्षम् ज्ञानापेक्षं हमतिम् रामस्ति तामुचेदम् ब्रूहीतत्वम् हनुमते निष्कर्म सोऽयम् ज्ञानस्य पात्रम् नो नित्यभक्तिमन् तथेति जानकी प्राहे तत्तं रामस्य निश्चितम् हनुमते प्रपन्नाय सीतालोकविमोहिनी श्रीसीतावाच रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयं सर्वोपाधिविनिर्मुक्तम् सत्तामात्रम् अगोचरम् आनन्दं निर्मलं शान्तम् निर्विकारम् निरञ्जनम् सर्वव्यापिनमात्मानम् स्वप्रकाशम् अकल्मषम् मां विद्धि मूल प्रकृतिम् स्वर्गस्थित्यन्तकारिणीम् तस्य सन्निधिमात्रेण श्रूयामि न तन्द्रिता तत्सान्निध्यान् मया सृष्टम् तस्मिन् नारोप्यते बुधै अयोध्या नगदे जन्म रघुवंशेति निर्मले विश्वामित्रतायत्रम् मखसंरक्षणं तथे हल्याशापशमनम् चाप भङ्गो महेशितुः मत्पाणिग्रहणं पश्चात् भार्गवत्य मदक्षये अयोध्यानगरे वासो मया द्वादश वार्षिकः दण्डकारण्यगमनम् ध एव च माया मारी मरणं माया सीता हृदि तथा जटायुषो मोक्षलाभ कबन्धश्च तथैव च शबर्या पूजनम् पश्चात् सुग्रीवेण समागमः वालेनश्च वधः पश्चात् सीतान्वेषणमेव वे च सेतुबन्ध जलधौ लङ्कायाश्च निरोधनम् रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः विभीषणे राजदानम् पुष्पकेण मया सह अयोध्यागमनम् पश्चात् राज्ये रामाभिषेचनम् एवम् आदीनि कर्माणि मयि वाचैवपि आरोपयन्ति रामेऽस्मिन् निर्विकारे अखिलात्मनि रामो न गच्छति न तिष्ठति नानुशोचति आकाङ्क्षते तजति नो न करोति किञ्चित् आनन्दमूर्ति अचले परिणामहीनो मायागुणाननुगतो हि तथा विभति श्रीमहादेव ततो रामः स्वयं प्राय हनुमन्तमुपस्थितम् शृणो तत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् आकाशस्य यथा भेद त्रिविधो दृश्यते महान् जलाशये महाकाश तदवच्छिन्न एव हि पदे बिम्बा किमपरम् दृश्यते त्रिविधम् नर्भ बुद्धि अवच्छिन्न चैतन्यम् एकं पूर्णम् अथ परम् आभासस्य परम् बिम्ब भूतमेवं त्रिधाचिति सा भास बुद्धिकर्तृत्वं विच्छिन्ने अविकारिणी साक्षिण्या रूप्यते भ्रान्त्या तथा बुधि आभासस्तु मृषा बुद्धिः कार्यमुच्यते अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः अविच्छिन्नस्य पूर्णेन एकत्वम् प्रतिपाद्यते तत्त्वमस्यादिवाक्ये च सा भासस्या ऐक्यज्ञानम् यदोत्पन्नम् महावाक्येन चात्मनो तदा विद्या स्वकार्ये च नश्यत्येव न संशय एतद्विद्याय मद्भक्तो मद्भावायोपपद्यते मद्भक्ते मद्भक्ते विमुखानाम् हि शास्त्रे गर्ते चु मोह्यताम् न ज्ञानम् न च मोक्ष स्यात् तेषाम् जन्म शतैरपि इदम् रहस्यम् हृदयम् ममात्मनो मय्यैव साक्षात् कथितम् तवानघ मद्भक्तिहीनाय शठाय न त्वया दातव्यमिन्द्रादपि राज्यतोधिकम् श्रीमहादेव उवाच एतत्ते भीतं देवी श्रीरामस्य हृदयम् मया अतिगृह्येतमम् हृद्यम् पवित्रम् पापशोधनम् साक्षात् रामेण कथितम् सर्ववेदान्तसङ्ग्रहम् यः पठे तत् तम्भक्त्य सद् मुक्तो नात्र समुचय हे ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि नश्यन्त्येव न सन्देहो रामस्येवनम् यथा योऽतिभ्रष्टोऽति पापी परधनपरदारेषु नित्योद्यतो वा स्त्रे ब्रह्मघ्नमाताय पितृवदनतो योगिवृन्दापकारी यः सन् पूज्याभिरामम् पठति च रामचन्द्रचन्द्रस्य भक्त्या योगेन्द्रे अप्यलभ्यम् परमिह लभते सर्वदेवै स पूज्यम् इति श्रीमदध्यात्मरामायणे उमामेश्वरसंवादे बालकाण्डे श्रीरामहृदयम् नाम प्रथमः सर्गः सीतारामचन्द्रार्पणमस्तु